ब्रह्माण्डपुराणं मध्यभागम् अध्यायं 42 टु भार्गवचरितं वसिष्ठ उवाच एवं सम्भ्रामिदो रामो गणाधीशेन भूपते हर्षशोकसमाविष्टो विचिन्त्यात्मपराभवम् गणेशं चाभिदो वीक्ष्य निर्विकारमवस्थितं क्रोधाविष्ठो भृशं भूत्वा प्राक्षिपत्स्वपरश्वथम् गणेशस्त्वभिवीक्ष्याध पित्रा दत्तं परश्वथम् अमोघं कर्तुकामस्तु वामेतम् दशने ग्रहीत सदुदन्तकुठारेण विच्छिन्नो भूदले पतत भुवि शोणिदसंदिग्धो वज्राहद इवाचलः दन्तपादेन विद्वस्ता, साब्धिद्वीपधरा धरा, धरा। चकम्पे पृथिवीपाल लोकास्त्रासमुपागताः हाहाकारो महानासीदेवानां दिवि पश्यतां कार्तिकेयादयस्तत्र चुक्रुशुर्भृशमातुलाः अथ कोलाहलं श्रुत्वा दन्तपादध्वनिं तथा पार्वदी पार्वतीशङ्करौ तत्र समाजग्मधुरीश्वरौ हे रम्भं पुरदो दृष्ट्वा वक्रतुण्डैकदन्दिनं पप्रचस्कन्दं पार्वती किमेददिति कारणं स मात्रा सेनानी सर्वमादिदः वृत्तान्तं कथयामासमात्रे रामस्य शृण्वतः सा श्रुत्वो दन्तमखिलं जगदां जननी नृप उवाच शङ्करं हृष्टा पार्वतीप्राणनायकम् पार्वत्युवाच अयं ते भार्गवशम्भो शिष्यपुत्र समोऽभवद त्वत्त्वो लब्ध्वा परं तेजो वर्मत्रैलोक्यजिद्विभो कार्तवीर्यार्जुनं सङ्घ्ये जितवानूर्जितं नृपं स्वकार्यं साधयित्वादुप्रादात्तुभ्यं च दक्षिणाम् यत्ते सुदस्य दशनकुठारेणन्यपादयद अनेनैव कृतार्थस्त्वं भविष्यसि न संशयः त्वमिमं भार्गवं शम्भो रक्षान्देवासि सत्तमं तव कार्याणि सर्वाणि साधयिष्यति सद्गुरोः अह नैवात्र यत्वया यत् विमदा विभो पुत्राभ्यां सहितायास्ये पितु स्वस्य निकेतनं सन्तो भुजिष्यतनयं सत्कुर्व्यात्मपुत्रवद भवतादो कृतो नैव सत् चसा आत्मनय से यास्यामि दुखिता वसी उवाच ये दुवा दुवचनम पावत भगवान्व नोवाच किंचिद्वचनम साधु व् साधु भूपते सस्मारमनसा कृष्णं प्रणदक्लेशनाशनम् गोलोकनाथं गोपीशं नानानुनयगोविदं स्मृतमात्रोऽधवान् केशवः प्रणदार्तिहा आ जगामदयासिन्धुर्भक्तवश्योऽखिलेश्वरः मेखश्यामो विशदवदनो रत्नकेयूरहारो विद्युद्वासा मकरसदृशे कुण्डले सन्दधा नः बर्हापीडं मणिगणयुधं गोपीनाथो गदिद गदिदसुयशाकौस्तुभोद्भासिवक्षाः राधया सहितश्रीमान् श्रीदाम्ना चापराजितः मुष्णं तेजांसि सर्वेषां स्वरु च ज्ञानवारिधिः अधैनमागतं दृष्ट्वा शिवः प्रणिपत्य यथा न्यायं पूजयामास चागतं प्रवेश्याभ्यन्तरे वेश्म राधया सहितं विभुं रत्नसिंहासनेनम्ये सदारं सन्यवेशयद अथ तत्रागदा देवी पार्वतीतनयान्विता न नाम चरणान्प्रभुवो पुत्राभ्याम सहिता मुदा ध रामोऽपि तत्रैव गत्वा नमिदकण्ठरः पार्वत्याश्चरणोपान्दे पपादाकुलमानसः सा यदा नाभ्य नन्दत्तं भार्गवं प्रणतं पुरः तदोवाच जगन्नाथपार्वतीं प्रीणयन् गिरा श्रीकृष्ण उवाच अयिनगनं दिनिन्दितचन्द्रमुखित्वमिमं जमदग्निसुधं नय निजहस्तसरोजसमर्पितमस्तगमङ्गमनन्दगुणे भावा भवभयहारिणि शम्भुविहारिणि कल्मषनाशिनि कुम्भिगदे तव चरणे पतितं सततं कृत किल्बिषमप्यवदेहि वरं शृणुदेविमहाभागे वेदोक्तं वचनं मम यच्छ्रुत्वा हर्षिदा नूनं भविष्यसि संशयः तनयो महात्मा महदां महान् यङ्कामक्रोध उद्वेगो भयं नाविशदेकदा वेदस्मृतिपुराणेषु संहितासु च भामिनि नामान्यस्योपदिष्टानि सुपुण्यानि महात्मभिः यानितानि प्रवक्ष्यामि निखिलाखराणि च प्रमधानाङ्गणाय च नानारूपा महाबलाः एषा मीशस्त्वयं यस्माद् गणेशस्तेन कीर्तितः भूतानि च वर्तमानानि यानि च ब्रह्माण्डान्यखिलान्येव यस्तिरो सदु यस्थिरो देवयोगेन छिन्नं संयोजितं पुनः गजस्य शिरसा देवि तेन प्रोक्तो गजाननः चतुर्थ्यामुदितश्चन्द्रो दर्भिणा सप्त आधुरः अनेन विधृतो बाले कालचन्द्रस्तदस्मृतः सप्तः पुरा सप्तभिस्तु मुनिभिः संक्षयं गतः दीपितो भूद्येना शूर्पकर्णकः पुरा देवासुरे युद्धे पूजिदो दिविषद्गणैः विघ्नं निवारयामास विघ्ननाशस्ततः स्मृतः अध्यायं देविरामेण कुठारेण निपात्य च दर्शनं दैवतो भद्रेह्येकदन्त मुना भविष्यध पर्या हरवल्लभे वक्री भविष्यंडंडवाद्वक्र तोस्मृतो बुध तवा पुत्र से संधिना पावती स्मरण पाप हीण काला अस्मात् त्रयोदशी कल्पात् पूर्वस्मिन् दशमी भवे मया स्मैदुवरो दत्तः सर्गदेवाग्रपूजने जातकर्मादिसंस्कारे गर्भाधानादिकेऽपि गर्भाधानादिकेपिच यात्रायां च वणिज्यादौ युद्धे देवार्चने शुभे सङ्कष्टे काम्यसिध्यर्थं पूजयेद्यो गजाननं तस्य सर्वाणि कार्याणि सिद्ध्यन्त्येवन संशयः वसिष्ठ उवाच युत्युक्तं तु समाकर्ण्यकृष्णेन सुमहात्मना पार्वदी जगदां नाधा विस्मिताऽऽसीच्छुभाना यदा नैवोत्तरं प्राधात् पार्वती शिवसन्निधौ तदा राधा ब्रवीदेवीं शिवरूपा सनातनी श्रीराधोवाच प्रकृतिः पुरुषच्छोभावन्योन्याश्रयविग्रहौ द्विधा प्रकाशे दे प्रपञ्चेऽस्मिन् यथा तथा त्वं चाहमावयोर्देविभेदो नैवास्ति कश्चन विष्णुस्त्वमहमेवास्मि शिवो द्विगुणतां गतः शिवस्य हृदये विष्णोर्भवत्यारूपमास्थितः मामरूपं समास्थाय विष्णोश्च हृदये शिवः एष महाभागे वैष्णवशैवताङ्गतः गणेशोऽयं शिवसाक्षाद्वैष्णवत्वं समास्थितः ये तयो वयोः भेदो न दृश्यते मोक्त्वा तु स राधाप्रोढे कृत्वा गजाननं मूर्ध्न्युपाक्राय पस्पर्श स्वहस्तेन कपोलके स्पृष्टमात्रे कपोले गदं। पार्वदी पूर्तिमुदागतं पार्वतीमुप्रसन्नाभूदनुनीताधराधया पादयोः पदिदं राममुद्दाप्य निजपाणिना क्रोडीचकारसुप्रीदा मूध्न्युपाख्राय पार्वती एवं तयोस्तु सत्कारं दृष्ट्वा रामगणेशयोः कृष्णस्कन्दमुपाकृष्य स्वाङ्गे प्रेम्णान्यवेशयद अथ शम्भुरपि प्रीतश्रीदामानं प्रस्थितं सोत्सङ्गे स्थापयामास प्रेम्णा मत्कृत्यमानतः इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमाभागे तृतीय उपोद्धातपादे भार्गवचरिते द्विचत्वारिंशत्तमोऽध्यायः ओम्